अथमोहपरायणा सती विवशा कामवधूर्विबोधिता विधिना प्रतिपादयिष्यता नववैधव्यमसह्यवेदनम् अवधानपरे चकारसा प्रलयान्तोन्मिषिते विलोचने न विवेदतयोरतृप्तयोः प्रियमत्यन्तविलुप्तदर्शनम् अयि जीवितनाथ जीवसीति अभिधायोत्थितया तया पुरः ददृशे पुरुषाकृतिक्षितौ हरकोपानलभस्म पुनरेव अथ सा पुनरेव विह्वला वसुधालिङ्गनधूसरस्तनी विललापविकीर्णमूर्धजा समदुःखामिव कुर्वती स्थलीम् उपमानमभूद्विलासिनाम् करणम् यत्तव कान्तिमत्तया तदिदं गतमीदृशीम् दशाम् न विदीर्ये कठिनाः खलु स्त्रियः त्वदधीनजीविताम् विनिकीर्यक्षणभिन्नसौहृदः नलिनीम् क्षतसेतुबन्धनः जलसङ्घात इवासि विद्रुतः कृतवानसि विप्रियं नमे प्रतिकूलं नचते मयाकृतं च ते मया कृतम् किमकारणमेव दर्शनम् विलपन्त्यैरतये न दीयते स्मरसि स्मरमेखलागुणैः उत गोत्र स्खलितेषु बन्धनम् च्युतके शरदूषिते क्षणानि अवतंसोत्पलताडनानि हृदये वससीति मत्प्रियम् यदवोचस्तदवैमिकैतवम् उपचारपदम् न त्वमनङ्गः कथमक्षतारतिः परलोकनवप्रवासिनः प्रतिपत्स्ये पदवीमहम् तव विधिना जन एष वञ्चितः त्वदधीनम् खलु देहिनाम् सुखम् रजनीतिमिरावगुण्ठिते पुरमार्गे घनशब्दविक्लवाः वसतिम् प्रिय कामिनाम् प्रियाह, त्वदृते प्रापयितुम् क ईश्वरः नयनान्यरुणानि घूर्णयन् वचनानि स्खलयन् पदे पदे असति त्वयि वारुणी मदः प्रमदाना मधुना विडम्बना अवगम्य कथीकृतम् वपुः प्रियबन्धोस्तव निष्फलोदयः बहुलेऽपि गते निशाकरः तनुताम् दुःखमनङ्ग मोक्ष्यति हरितारुणचारुबन्धनः कलपुंस्को किल शब्दसूचितः वदसम् प्रति कस्य बाणताम् नवचूतप्रसवो गमिष्यति अलिपङ्क्तिरनेकशस्त्वया गुणकृत्ये धनुषो विरुतैः करुणस्वनैर्यम् गुरशोका अनुद् प्रतिप्य मनोहर वपु पुनरप्याश तवदुत्थि रूतिपदेशु कोकिला मधुरालाप निसर्गपंडिता शिसा उपगूढानि सवेपथूनि च सुरतानि च तानि ते रहः स्मर संस्मृत्य न शान्तिरस्ति मे रचितम् रतिपण्डितत्वया स्वयमङ्गेषु ममेदमार्तवम् ध्रियते कुसुमप्रसाधनम् तव तच्चारु वपुर्न दृश्यते विबुधैरसि दारुणैः असमाप्ते परिकर्मणि स्मृतः तमिमम् कुरु दक्षिणेतरम् चरणम् निर्मितरागमेहि मे अहमेत्यपतङ्गवर्त्मना पुनरङ्काश्रयणी भवामिते, ते सुरकामिनी सुरकामिनीजनैः प्रिययावन्न विलोभ्यसे दिवि मदनेन विनाकृतारतिहि, क्षणमात्रं रतिः क्षणमात्रम् किल जीवितेति मे वचनीयमिदम् व्यवस्थितम् रमण त्वामनुयामि यद्यपि क्रियताम् कथमन्त्यमण्डनम् परलोकान्तरितस्य ते मया सममेव गतोऽस्य तर्किताम् गतिमङ्गेन च जीवितेन च ऋजुताम् नयतः शरमुत्सङ्गनिषण्ण धन्वनः मधुना सह सस्मिताम् कथाम् नयनोपान्तविलोकितम् च यत् क्व नु ते हृदयङ्गमः सखा कुसुमायोजितकार्मुको गमितः सोऽपि सुहृद्गताम् गतिम् अथ परिदेविताक्षरैः हृदये दिग्धशरैरिवाहतः रतिमभ्युपपत्तुमातुराम् मधुरात्मानमदर्शयत्पुरः तमवेक्ष्य रुरोदसा स्तनसम्बाधमुरो जघान च स्वजनस्य हि दुःखमग्रतः विवृतद्वारमिवोपजायते इतिचैनमुवाच चैनमुवाच दुःखिता सुहृदः पश्य वसन्त किं पवनैर्भस्मकपोतकर्बुरम् अयिसम् प्रतिदेहि दर्शनम् स्मरपर्युत्सुक एष माधवः दयितास्वनवस्थितम् नृणा न खलु सुहृज्जने अमुना ननुपार्श्ववर्तिना जगदाज्ञाम् ससुरासुरम् तव विसतन्तु गुणस्य कारितम् धनुषः पेलवपुष्पपत्रिणः गत निवर्तते स इवानिलाहतः अहमस्य दशेव पश्यमाम् अविषह्यव्यसनेन धूमिताम् विधिना कृतमर्धवैशसम् ननु माम् कामवधे विमुञ्चत अनपायिनि संश्रयद्रुमे गजभग्ने पतनाय वल्लरी तदिदम् क्रियतामनन्तरम् भवता बन्धुजनप्रयोजनम् विधुराम् ज्वलनातिसर्जनात् ननु माम् प्रापय पत्युरन्तिकम् शशिना सह यातिकौमुदी सह मेघेन तडित् प्रमदाः पतिवर्त्मगा इति प्रतिपन्नम् हि विचेतनैरपि अमुनैव कषायितस्तनी सुभगेन प्रियगात्रभस्मना नवपल्लवसंस्तरे यथा रचयिष्यामि तनुम् विभावसौ कुसुमास्तरणे सहायतां। बहुशः सौम्य गतस्त्वमावयोः कुरुसम्प्रति तावदाशु मे प्रणिपाताञ्जलि तदनुज्ज्वलनम् मदर्पितं त्वरयेर्दक्षिणवातवीजनैः विदितम् खलु ते यथा स्मरः क्षणमप्युत्सहते न इतिचापि विना इति चापि विधाय दीयताम् सलिलस्याञ्जलिरेक एव नौ अविभज्य परत्र तम् मया सहितः पास्यति ते परलोकविधौ च माधव स्मरमुद्दिश्य विलोलपल्लवाः निवपेः सहकारमञ्जरीः प्रियचूतप्रसवो हिते सखा इति देहविमुक्तये स्थिताम् रतिमाकाशभवा सरस्वती शफरीम् ह्रदशोषविक्लवाम् प्रथमा वृष्टिरिवान्वकम्पयत् कुसुमायुधपत्नि दुर्लभः तव भर्ता न चिराद्भविष्यति शृणुयेन स कर्मणागतः शलभत्वम् हरलोचनार्चिषी अभिलाषमुदीरितेन्द्रियः स्वसुतायामकरोत्प्रजापतिः विक्रियाम। अभिशप्त विक्रिया अभिशेतन्वभू परिणेश्यति पार्वती यदा तपसा तत्प्रवणी हर उपलब्धसुखस्त स्मर वास्जयिष्य इति चाह स धर्मयाचितः स्मरशापावधिदाम् सरस्वतीम् अशनेरमृतस्य चोभयोः वशिनश्चाम्बुधराश्च तदिदं तदिदम् परिरक्षशोभने भवितव्यप्रियसङ्गमम् वपुः रविपीतजलातपात्यये पुनरोगे हि युज्यते नदी इत्थम् रतेः किमपि भूतमदृश्यरूपम् मन्दीचकारमरणव्यवसाय बुद्धिम् तत् तत्प्रत्ययाच्च कुसुमायुधबन्धुरेनाम् आश्वासयत् सुचरितार्थपदैर्वचोभिः अथ मदनवधूरुपप्लवान्तम् व्यसनकृशा परिपालयाम्बभूव शशिन इव दिवातनस्य लेखा किरण धूसरा प्रदोषं